ुघभिरः ऋषेभिः संवृतो रसो ब्राह्मणेष्वृदम् हिषम् पापमानेम् लोकमथो अमुम् कामान् समर्धयन्तु नो देवीर्देवैः समाहिताः येन देवाः पवित्रेणात्मानम् पुनरे सदा तेन सहस्रधारेण पावमान्यः पुनन्तु माम् राजापत्यम् पवित्रम् स्वयम् एनम् ब्रह्मविलोभयम् भूतम् ब्रह्म पुनीमहे इन्द्रस्वनीति सहमाः पुनातु सोमः स्वस्त्यावरोणः समीच्या यमो राजा प्रवृणाभिः पुनातु पुना मा जातवेदामोज्जयम् द्यावृणातु ऋषयस्तु तावस्तेवः सर्वे स्वर्गजिगीषवः तपसस्तपसो ग्लेन्दु पावमाने रजो जन्मैवसदः पापमुग्रम् यज्जायमानस्य च किञ्चिदन्यत् जातस्य तयच्चापि च मध्वे तावमानीभिरहम् पूनामि मातापित्रो जन्यकृदम्बजो मे यः सा वरम् जङ्गम विश्वस्य तत्रा वचो मे तत्पावमानेभिरहम् पूनामि गोग्लात्तस्करत्वाच्छीवधाद्यकम् चरणेभ्यस्तत्पावमानेभिरहम् पूनामि ब्रह्म सुरापानात् स्वर्णस्ते यादृशमेतु न सङ्गमात् पुरोर्दाराधिगमानाश्च तत्पावमानेभिरहम् बूनामि बालघ्नान् मातृभितृवधात् भोवितस्करात् सर्ववर्णगमनमैथुनसङ्गमात् आदेभ्यश्च प्रतिग्रहात् सद्यः प्रहरलि सर्वदुष्कृतम् तत्पावमानेभिरहम् बूनामि जैक्रयाज्योनिदोषाद्भक्षाद्भोज्यात् परिग्रहात् असम्भोजाश्चा विनृशंसन्तपावमानेभिरहम् पूनामि दुर्यष्टम् दुराधीरम् पावम् यच्चज्ञानदो कृतम् अयाचिराश्चासयाज्ञास्तत्पावमानेभिरहम् पूनामि मन्त्रमन्नम् यत्किञ्चिद्धूयते च हुतासाने संवत्सरकृयतम् पावम् तत्पावमानीभिरहम् पूनामि ऋतस्य यो न यो मृतस्य नाम विश्वा देवेभ्यः पुण्या गन्धाः आन आप प्रवहन्तु पापम् श्रद्धा गच्छामि सुकृता नामलोकम् पूनामि पाववाणी स्वस्तयीर्याभिर्गच्छति नान्तरम् पुण्यां स भक्षान् भक्षयत्य पृथक्त्वम् च गच्छति पाववाणी पित्रेम् देवान् ध्यायेद्यश्च सरस्वती तस्योपवर्ते दक्षीणम् सर्पर्मदूदकम् पावपानम् वरम् ब्रह्म शुक्रम् ज्योतिः स्वनादनम् ोपादिष्टेदक्षीरम् सर्प्यर्मधूदकम् पापमानम् परम् ब्रह्म ये पठन्ति मनीषीरः सप्त जन्म भवेद् पारायः दशोद्धरान्ताैव पापवानि शतानि षट् एतज्जु जेन्मन्त्रम् घोरम् रञ्ज देवमच्छावधूवन्तयन्धवो जदन्धवालधेदवाः दे परिषदो वचनावन्तः परिश्रुतमुश्र्या निर्निलम् दिरे सरोवदभिपूर्वा अलिक्लनुवारुह श्रयन् स्वादधे हरिः तिरः पवित्रम् वर्यन्नुरज्रयो निसर्याणि दधते देवावरम् इयो ममेयम्याः सञ्जयती मदः साकम् वृथापयसा बिन्फलक्षीता महीयापादे रजासीभिबेविदभिव्रजन्न क्षीतम् पाचाददे समातरा वितरम् पादयन् नमः प्रमे धीरस्वधया पिन्वदे अंसुर्यवेपि विषे यतो नृभिः सम् जामि धर्म से रक्षते शिराः कन्दक्षेण मनसा जायते कविर्हृतस्य गर्भो निहितो यमापरः यूरा हसन्दाप्रथमम् यजज्ञदर्गुहाहितम् जनीमने ममुद्यतम् मन्त्रस्य रूपम् लेविधर्मिनः सेलो यदन्तो अपरत्परापताः तम् मज्जयन्त सुहृतम् नदीक्षान्तंसुम्पर्यन्तमृग्मियम् आम् दि सयोष नः सुतम् सोपर्षेभिर्मदिभिर्जेतिभिर्हितम् अव्योवारेऽभिरुतदेवभूतिभर्वतो वादमादर्णिशातये परिप्रयन्तम् वैयम् सुषंसदम् सोमम् मनीषा अभ्यनोषतस्तुभाजामधूमा गूर्मिणादिवैयर्ति वाचम् ग्रयिषालमर्त्यः अयम् दिवजी यर्थि सोमः पुराणः कलशेषु सीदति अर्भिर्गोभिर्मजते अद्रेभिः सुतः पूरानयिन् सर्वै वो विद्रियाम् ये वा नः सोमपरिषुच्यमा नोपज्योतदश्चित्रतामम् भवस्व अद्वेषेद्यावापृथिवीभूवे मदेवा सुवीरम् धन् मन् प्रतिधीयते मधुर्वत्सो न माधुरुपासद्युधानिहारे मधुहे अग्र आयत्य संव्रतेष्वपि सोमयिष्यते को मतिः पृच्यते सिच्यते मधुमन्द्राजानी शोदते अन्तरासनि बाबालः सन्तनिः प्रघ्नतामेव मधूमान् द्रप्सः व्ये वधूजपमते परित्वतिः स्रध्नीते नप्तीरीते ऋतम् यते हरिरक्राण्यजतः संयतो मदो नृम्नासि सा नो मयुशो न शोभते उक्षामी माति प्रतीयन्ति धेनवो दे देवस्य देवीरुपा यन्ति निष्कृतम् त्यक्रमेदर्जुनम् वारमव्ययमत्कन्ननिक्तम् परिसोमोऽत मनुक्ते ननुसताभाससाहरिरमर्त्यो निर्निजानः परिण्यत जिवस्पृष्टम् बर्हना निर्मिजे कृतोपस्तरानम् शम्भो न भस्मजम् ैव रश्मजो द्रावजित्रवो वत्सरासः प्रसुपः साकमी रते अनन्दम्बरिसर्गास आसभोनेन्द्राधृते पावते धाम किञ्चन सिन्दोरिव प्रवणे निम्न आसभो वृषच्युतापदासो गातुमासत छन्नानि भेशे द्विपदे चतुष्पथे स्मेवाजाः सोम तिष्ठन्तु कृष्टजाः आनःपवस्वसो बद्धिरण्यवदस्वाभद्भो मद्यवात्सुवीर्यम् यूयम् युशोम पितरोमवश्च न दिवो मोर्धारप्रस्थिता वयस्कृताः एते सोमाः पवमाना स इन्द्रम् रथा य प्रजायुः सादिमच्छ सुदाः पवित्रमतीयन्तव्यम् हित्ती भव्रिम् हरितो वृष्टिमच्छ इन्दमिन्द्राय बृहते वस्व सुवृणीको हद्यो दिशादाः भरा चन्द्राणि गृणते वसूनि देवैर्द्यावा ऋचिभिः प्रावः दिनस्मै सप्तधेनवो दुदु सत्याभासिरम् पूर्वे व्यो मणि सत्त्वार्यभुवानानि निर्मिजे चारूणि च क्रे च धृतैरवर्धत स वीक्षमाणो अमृतस्य चारू न एजिष्टा अपोमङ्गनापरिम् यत यदी देवस्य श्रमासासदोः विदुः ते अस्य सन्त्वकेतवो भृत्यमो दाभ्यासो धनुषीः बुभे अनु देभेर्नम्ना च देव्या च पुनः आदिद्राजाह मननाः ृज्यमानो दशभिः सुकर्म विष्णमध्यमासु मातृशुप्रवेसचा मृदायीपानो अमृतस्य चारून भुभे निषक्षानुपश्यते विशौ समृजानयम् त्रिजा यधाय समोभे अन्तारोद श्रीहर्षदे हिनः मृषासुष्णेन बाधते विदुर्वदीरादेतीसानः सर्जेव सुहृधाः समातरा न ददृशानभुसृजो नारददेति मरुतामिवस्वनः जालन् नृतम् प्रथमम् यत्स्वन्दरम् प्रसस्तजेकमावृणीत सुक्रतोः रुपति भीमो वृषभस्तविषया शृङ्गे शिषा नोहरिणीविचक्षणः आयोनिम्सोम सुकृतम् निषीदति गव्ययी त्वग्भवति निर्निगव्ययीः सुजुनानस्तमदेव समञ्जे हरिर्ण्यधाविष्टसारुष्टो मित्रायवरुणाय भाजवे त्रिधातुमधु क्रियते सुकर्मभिः पवस्व सोम देववीतये दृषेन्द्रस्य हार्दी सोमधानमावीष पुराणो बाधाद्दुरितार क्षेत्रविद्विधाः पिपृच्छते हितो न सप्तिरपिवजरुषेन्दस्येन्द्रो जट रमापाभस्व नारणसिन्धुमतीवर्षि विद्वान् शूरो न युद्धम् न वा नो निगस्पाः आलक्षीणा सृज्यते सुष्या आसदम् वेदि द्वो रक्षसः पादिजाग्रीभिः हरिरापसङ्क्रीणते न भस्मजामुपस्थिरे चम्भो ओर्ब्रह्म निर्मिये प्रकृष्टिव सूषये तिरोलोगदसूर्या अम्बर्णम् निरीणीते अस्य तम् जगादिव्रम् पितुरे देष्कृतमुपटम् कृणुते जन्निचन्दना अद्रिभिः श्रुतः पर्वते गभश्चोर्षाय तेन भरसा पेपते मती समोदतेन स ते साधते किराने अप्सु यजते परी परिद्युक्षम् सहसः पर्वतावृधम् मध्वस्मिम् जन्ति हर्ण्यस्य सक्षणि आयस्विङ्गावस्वृतादबूधनिमोर्ध्वान् छेदन्त्यग्रियम् वलीमभिः स मे न छन्दभुरिजो रहेषतदसस्वसारो अधीतेरुपस्था ुपज्रयधिगोरबीजम् पदम् यदस्य मतुथा अजीगरन् शेनो नयोसदन्धिया कृतम् हिरण्यया मासदम् देवजेषरन्ति परिहृषभ्रियम् गिरा सोलदेवा अप्येति यज्ञियाः तो अरुषो दिवः कविर्मृषात्रिभृष्टो आनविष्टगा अभि सगानीतिर्यतिः परायतीरेभो न भूर्वीरुषसो विराजति एनम् रूपम् त्रेणुते मन्नो अस्य स यद्रास यत्संविधासे धिश्रियः अप्सारादि स्वधया दीव्यञ्जनम् संसृष्टुती न स ते सङ्गो अग्रजा उचा पर्यन्न वीतधिषीरधितसूर्यस्य दिव्यः सोपर्मा वक्षदक्षाम् सोमाः परिक्लूना पश्यते जाः हरिम् ऋञ्जऋषो न युज्यते संसेनभिः कलसे सोमो अज्यते उर्वाच मीरजि हिन्वते मतीरुष्टुतस्य कदिचित्परिप्रियाः साकम् वदन्ति बहवो मनीषि नयिन्दस्य सोमम् जठ ते जधा दुः यदि मृजन्ति सुगाभस्तयो नरः सनीलाभिर्दसभिः काम् जम्मधु अराममानो अत्येदिगा अभिसूर्यस्य प्रियम् दोहिद अन्वस्मैजोषामभरद्रिणम् कृतः क्षेतिजामिभिः ऋभूतो तो भरिषुप्रियप्रतिर्गवाम् प्रतिभयेन्दुर्हृत्यः पुरम् मनोषो यज्ञसाधनः सुच धिया पावते सोमा इन्द्रते भ्याम् चोदितो धाराजासुतोसम्भवते सोम इन्द्रते आप्राक्रतो समजैरध्वने मदीर्वेण दृढश्चम्भो ो राजदद्धरीः सन्दोहन्ति स्तनयम् गवक्षीरम् कविम् कवयोपसो मनीषिणाः ी गावो मतयोजन्ति संयतऋतस्य यो नासने पुनर्भुवाः नाभा पृथिव्याधरुणो महो दिवो ओमा मोर्मौ सिन्धुष्वन्तरुक्षितः इन्द्रस्य वज्रो वृणभो विभुव मत्सरः सदोपावस्वपरिपार्थिवम् रजस्तोत्रे शिक्षन्नादोन्मते च सुक्रतो मानो निर्भाग्वसूनः स्वादनः स्पृशो रजम् विषङ्गम् बहुलम्बसीमहि आदून इन्दो स्वबृहतीरेवतीरोधितोत्रस्यापवमाननो गिः शक्वे द्रप्तस्य धमस्तरम् ऋतस्य यो नासमानन्दनाभः त्वेन स भो अदूरश्चक्र आरभे सत्यस्य रामस्तु परम् म्यक् सम्यन्तो महिला हेशत सिन्धो रोर्माऽवधीवेणाविपन् मधोर्धाराभिर्जनयन्तो अर्कमे त्रियामिन्द्रस्य धन्वामविवृधन् अवित्र वन्दः परिवाच मासते पितैषाम् रतो अभिरक्षति व्रतम् घः समुद्रम् वरुणः स्थिरोदधे धीरायुच्छे गुर्धरुणेश्वालभम् सहस्रधारे पते समस्वरम् जिवो न के मधुजिह्वासश्च ताः अस्य स्वसो नमीढम् त्रिपूर्णायः पदे पदेपासिनः सन्ति सेतवः विनुर्मातुरध्याये समस्वरम् ऋताशोचम् सन्तहन्तो अव्रता इन्द्रद्विष्टामपधमन्ति भाजया त्व चमसिग्नीम् भूमानो दिवस्परि रत्नान्मानादध्याये समस्वराञ्चोकायन्द्रासो लभसस्य मन्दवः अपा रक्षासो बधिराः सृतस्य पन्थाम् न दरन्ति सगस्रधा दे विदरे पवित्रावाचम् पुनन्ति कवयो मनीषिणः पुत्राणि शिरासो अद्रुहस्पसस्पञ्च स्वदृशो रुचक्षसः तस्य गोपानदभाय शुक्रदस्त्रेष पवित्रा हृद्या अन्तराधे विद्वान् स विश्वाभुवनाभिपश्यत्य वा जुष्टान् विध्यति कर्ते अव्रतान् यतः सतम् दर्वितदः पवित्रा जिह्वाजा अग्रे वदनस्य माजया धीराश्चित्सत्समिनक्षन्तः सदा कर्तमवपदात्य प्रभो शसन्न जातो वा चक्रदद्वने र्यद्वाज्यरुढस्सिषा सति जिभोरेतसा सचते पजो वृधातमी महे सुभति शर्म सप्रथाः सेमे महीरोदसी यक्षता वृधासमीचीने धाधारथमिढः कविः अयत्सरस्वकृतम् सौम्यम् मधूर्वी गम्यो दिरीते रृतम् यतेश्चे ऋतम् श्रियो वृषापान्नेता चितभूतिर्विग्मिजा आत्मन् वन्न भो दुह्यते घृतम् पच ऋतस्य समीचीराश्वा न वः प्रीणन्ति तम् नरोहितमवामेहन्ति पेरवः अराविधंसस्य च बानकूर्मिणा देवां या अम् मनुषे बिन्दसि त्वजम् तथाधिगद्भवती ते नृपश्चायेन तोकञ्चतनायम् दधामाहे सहस्रधारे मता सश्च तृतीये सन्तुरजि प्रजापतीः चतस्रो नाभो निहीता अवो दिवो हविर्भरम् जमृतम् धृतश्चेतम् रूपम् गृह्णुते यत्सुधा सति असूरो वेदभूमनः ी सज देशेमभिद्रवद्यवस्कवन्तमवदर्शदुद्रिणम् अथ श्वेतम् कलसङ्गोभिक्तम् काष्पन्नाभाजक्रमे आहिन्विदेवनासादे भयम् दः कक्षीव ते सदहि मायगो नाद्धि सोमपुदानश्च ते रसो द्योपारम् इव ममा न धावति जमानः कविभिर्मदिन्दमस्वधस्वेन्द्राजपवमानपीतये अभिप्रियाणि पवते जनो हितो नामानि यह्वो अधियेषु बध्ते अमासूर्यस्य बिहतो बृहन्नधिरतम् विश्वम् तमरुहद्विचक्षणः जिह्वापवते मधुप्रियम् पत्त्वापतिर्धियो अस्यादाभ्यः तथादिपुत्रः पित्रोरबीच्या अम तृतीयमधीरोचने दिवः अवद्युदानः कलशाङ्गचिग्रदन्भिर्जे मानः कोशाहीरन्यजे अभिवृतस्य दोहना अनुषदाधित्रिभृष्टवृषधो विराजति अद्रिभिः सुतो मतिभिस्तनो हित प्ररोचयन् रोदसीमातरा सुचिः कोमाण्यव्या समयाभिधावनादिवेदि मे हरि सोमप्रधन्वा स्वस्तये नरेः पुनानो अभिवासयाशिरम् एते मदाहनसोभिहायसस्तेऽभिरिन्द्रम् चोदयदातमघम् भद्रन्नो अपि वादयमलाः ओ हरिः को धर्तादिवदे कृत्यो रसो दक्षो देवानामनुमाद्योभिः परैश्रजानो अत्यो न सत्त्वभिर्वृथापाजान्सि गणते न जीष्मा सूर्यो न धत्ता युधा गमत्यो स्वा अस्विषा सन्नथिरोगविष्टिषु इन्द्रस्य तृष्माभिरयन्नभस्युभिरिन्दरयम् वा नो अज्यते मनीषिभिः इन्द्रस्य सोमपवमानकूर्मिणादविश्वमानो जठरेष्वावीश प्रणः पिन्व विद्युदभ्रे वरोदसीर्या न वाजाम् उपमासि सस्वतः विश्वस्य राजापवते स्वर्धिषृतस्य धीतिवृषिषा न वीवसत् सो यस्यासीरेण मृद्यते पितामधीनामसमष्टकाव्यः यूता परिगोषा वर्षस्य पामुपस्येवषभक्कणि क्रदते सरिन्द्रायमवशे मत्सरिन्द्र भो यथा येषामसमिधेतो प्रकोषे मधूमाङिक्रदलिन्द्रस्य वज्रोपुषोपुष्करः अभिवृतस्य सुदुघाघृतश्चुतो वास्रारषन्ति पयसेमधेनवाः पूर्यः पावते यन्दिव स्परिश्ये नो माधा यदीक्षिनस्थिरो रजाः समध्वायोगदेवी जानयत्कृजानो नर्मनसाः विभ्युधा तेनः पूर्वास उपरासयिन्द वो महे वाजाय धन्वन्तु गोमा ो ब्रह्म ब्रह्मजेजोजुगर्भविर्गविः भी अजम्मा विद्वानवद्वनुशतयन्दुः सह्रा चामनासा पुरस्तुतः सदा ने गर्भमाददेगवामलब्धमभ्यर्षजव्रजम् चक्रर्दिवदे कृजो रसो महामलब्धो मनोनो हृरोग्यते जनेषु जङ्घ्यो द्योनज्योते वृषयः कनि क्रदरे राजावाचम् जनयन्नशिष्यतपोऽपसानभिगायी यक्षति ल्णाति रिप्लमवीरः सतान्वा शुद्धो देवानामुपायाति निष्कृतम् इन्द्रायसोमपरिषिच्यसेन्द्रभिर्विदक्षाः भोर्मिः कविरजसेवने भोर्भिर्हृदे श्रुदयः सन्धिजातमे सहस्रवसाघरयश्च भूतदाः समुद्र्याः अप्सरसो मनीषि नमासीना अन्तरपि सोमवक्षरन् यीन्वन्ति हङ्गस्य सक्षणिम् याचन्ते सुन्नम् भव बालवक्षीतम् गोजिह्नः सोभोरथदिद्धिरण्यजत्स्वर्जिदब्ज्वापते सहस्रजित् यम् देवासश्च दे गृहेऽपीतजेव तम् स्वादिष्ठम् धप्समारुणम् माजोभुवम् ी समपमानो अस्मयः सत्यानि कृमन्त्रवीणान्यर्षसि यकि शत्रो मन्ति के दूरके च युर्वीम् गव्यो जिमपायम् च न स्कृधि अशोदसो नोदन्वन्दिन्द्रो बारासो बृहद्दीपेषु हराजः विजनसन्नजिषो अरातयोर्यो न सन्त सनिषन्तनो भाजे णो धन्पन्विन्द वोमध्युतोधना वाजेभिरवतोमर्तस्य कस्य जित्वरि हृदिम् भजन्तनानि विश्वसा परे महि उद स्वस्यात्या हरिर्गिड उदान्यस्यात्यादृष्टा समभितता अभिसोमजहि पमानदुराध्याः दिविदे नाभा परमो यः धे पृथिव्यास्तेरुरुहःसा न विक्षिपाः अद्रायस्त्वामाप्सधिगोरधित्वच्च आप्सुत्वाहस्तैर्दुधुर्मिणाः देवादयिन्दो सुभ्रम् सुरसम् कुञ्जन्यप्रथमाभिश्रियाः निरम् निरम्बववान निरारिण आविष्टे सुष्मा भवतु प्रियोमदाः सोमस्य धारा पवदे विचक्षसृतेन देवान् रापदे दिवस्परि बृहस्पते रमथेन वियुज्युते समुद्रा सोनसवनानि विव्यजुः न्ता वाजन्न अघनोषतायोगसंयो निवारो मगो नामाय प्रचलनम् महिश्रमहिन्द्राय सोमपवसे विषामदाः देन्द्रस्य कृपावसे मदिन्द्रमगूर्जम्बसा न श्रवसेषु मङ्गलाः त्यां सविश्वाभुवनाभिपङ्घरि रत्यस्यन्ते ज्यो मधु मत्तमङ्गनः सहस्रधारम् दुःखते दक्षिपाः विस्वा प्रच्युतो हन्त्वाध्रे बर्जुभञ्जत् सुरेषक्षिपाः इन्द्रम् सोमवादयम् देव्यञ्जनमिसिन्धो रिभोर्म्यः पपमानो अर्षसि न सोमस्य पबमानस्योर्म जन्द्रस्य यन्ति जघरम् सुरेशसः दध्राय दीमुन्न सागवान् दानाय शूलबुतमन्दिडः सुताः अच्चादिवकलसाङ्गशिषदो न मूढा रघुवत्तनिर्मिडा तथा देवानामुभयस्य जन्म नो विद्वास्रोत्यमुदयितश्च यत् नसाम पानः किरामस्मिन् दो भव मघवाराध सोमः दीक्षा वयोधो वस वेसु चेतु नामा नो गजमारे अस्मत्परासितः आनः कूटापव बाणस्तु राधयो निद्रो गच्छन् वरुनः स्वजोषः मरुतो ेद्यावा पृथिवी विश्वभिन्वे अर्यमा देवो अतिर्विधाता भगवृं सूर्वा अन्तरिक्षम् विश्वे देवाः पवमानम् द्विषन्त असाभि सोमो अर्षो वृषा राजे पदस्मो अभिगाः चिक्रदत् पुरा नो पारम्पर्येत्यव्ययम् ेनो न योनिम् घृतवन्तमासदम् अविर्वेदस्यावर्ये शिवाहिरमत्योन मृष्टो अभिपाचमर्षसि अवसेधम् दुरितासोमृयघृतम् वसानः परीयासि निर्निजम् पर्जन्यः पितामहितस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयम् दधे स्वसार आपो अभिगामुदासारसङ्ग्रामभिर्नसते धेने अध्वरे याजेवमद्रावधिसेव वङ्गसेव जाजागर्भसृणे ब्रवीमिते अन्तर्वाणीषु प्रचरासु जीवसे लिञ्जो विचने सोमजागृहि यथा पूर्वेभ्य स्वदशा अवृद्रः सहस्रसा पर्ययावाजविन्दो देवास्व सुविता जनव्यसे तवृतमन्दापः स्वजन्ते पवित्रम् देवितम् ब्रह्मणस्पदे प्रभुर्पर्ये विश्वतः अदप्तनोर्न दस्तत्समासोष्पवेत्रम् वितरम् दिवस्पते शोचन्तो अस्वदन्तभो व्यसिरन् अमम् यस्य बीतार वासवो दिवस्पृष्टमधिष्ठन्ति चेतसा अरोरुजदुषसप्रश्नेरग्भ्यभुक्षा विभक्तिभुवनादि वाजयोः मायाविनो ममिरे अस्य मालिना लक्षासः इतरो गर्भमादधो गन्धर्व रक्षदिपाति देवानाम् दिनी मान्यूतः गर्भ्यादिरूपम् निजया निदावादि सुकृता मा विर्गविष्णो महि सद्वदे जम् न भोपसा नः परी यास्यरम् राजा पवित्र रचोमाजमारुहस्वहस्वृष्टरुजय शिश्रवो बृहत् अवस्वदे भवाद नो वितर्षनिरप्सा इन्द्रायवरुणाय वायवे कृधीयोः अद्यवरीवस्वस्त्यो रक्षितो आयस्तस्थो भुवरान्यमत्यो विश्वानिसो मत्परितान्यर्षति कृण्वाण्सञ्जतम् विश्रुतमभिष्टजयिङ्गश्रिड्युडसन्नसूर्याः आयोगो विसृजतमोषधीष्मदेवानाम् सुन्नविषयन्नुपावसुः विद्युदा पवते धारया सुत इन्द्रम् सोमो मादयन्ती व्यञ्जनम् जेणश्च सोमः पवते सहस्रसिद्धिम् बाणोवाच विषिरामोषद्भुतम् इन्दुस्रमुद्रमुदीयक्ति वाजुभिरेन्द्रस्य हाद्यकलशेषु सीदति अभित्यङ्गावः पज सापयो वृथम् क्रीणन्ति मतिः स्वर्पितम् धनञ्जयः पावते गो रसो विप्रः कविः काव्येना स्वर्चनाः इन्द्रायसोपसुषु तत्परिश्रवापामी वा भवदुरक्षसा सह रसस्य मत्सदग्नयापि नो द्रवीडः इह सन् अस्मान् स मर्ये पवमानचोदजदक्षो देवानामसि हि प्रियो मदः इह शत्रोन्द्रभ्याबन्ना यदा पिपेन्द्रसो मम नो मृधो जिः अदब्ध इन्दोपवसे मदिन्दमात्मेन्द्रस्य भवसि दाशिरुत्तमः अभिस्मरन्ति बहवो मनीषिणो राजारमस्य भुपनस्य निंसते सहस्रणीतः सदधारो अद्भूतयिन् राजेन्द्रः पवदे काम्यम् मधु जयम् क्षेत्रमब्जर्डाजयन् नमपुरुन्नाघातुम् गृहसोमी ढ्वः कणिकलत्कलसे गोभिरजसेव्या अजयनम् अनुमृज्यमानो अत्योनसा नसि लिङ्गस्य सोमजठरे समक्षरः स्वादुः पमस्तव्याय जन्माने स्वादुरिन्द्राय सुभवीतु नाम्ने स्वादुर्मिद्राय मरुराय भाज दे बृहस्पतजे मधूमाङ्कलाभ्यः त्यम् ऋषन्ति कलसेदसक्षिभाप्रिप्रा मदयोवाच यीरते अपमाना अभ्यर्डन्ति सुतिमेन्द्रम् विषन्ति महिलासैन्दवः अपमानो अभ्यर्डा सुवीर्य मुर्वीम् गव्योतिम्बहि सर्वसप्रसाः मानम् अस्य फलीशोतिलीशतेन्दोदये मद्वजा धनम् धनम् धिद्यामस्तादृढभो बीजक्षरोधरा कविः राजा पवित्रमध्ये वज्जिमस्पीजूषम् दुहते विचक्षसः दिवो नाके मधु जिह्वासश्चतो वेनादूहम् चक्षणम् जिरिष्ठा असुद्रत्संवादशालम् स मुद्रा सिन्धो रोर्मा मधो मन्दम् पवित्रा नाके सुपर्णमुपत्तिमाम् सङ्गिरो वेनानामग्रबन्तपूर्वीः शिशुम् देहम् वि मदयः पणि प्रदम् निरण्यम् ऊर्ध्वो गन्धर्वगे अस्ताद् विश्वारूपात्राधिलक्षाणोऽस्य भानुशुक्लेन सोऽप्रारोर्जद्रोदसीमातरासुः तत आसवः पवमानधीजपोमदा बत्मना दिव्यासु पन्नामधुवन्द वो मदिन्दमासत्पलिवच मासते तथे मदा सोमधिराज आसवो दृक्षद्याः सो यथा पृथग् धेन भत्सम्भज साभिभज्रणमिन्दमिन्द वो मधु मन्दूर्मजाः न हि धिलानो अव्यये सोमः पुराण इन्द्रिया विराजसे प्रतास्मिः पवमानधीजमो देव्या सघ्रन्वयसाधरीमणि प्रान्तर्षयस्थाभिक्षतये त्वा भृजन्त्रिषि जानवेधसाः निः साधामानि विश्व चर्भास्ते सतः परियम् दिकेतवाः ज्ञानसिप्पर्विश्वश्च बुपानश्च राजसि उभयतः पममानश्च रश्मयोध्रुवस्य सतः परियम् दिकेतवाः यी पवित्रे अधिहरिः सत्तारियो नाः यज्ञस्य केतुः पते स्वध्वरः सोमो देवानामुपजातिरुष्कृतम् सहस्रधारः परिको समरुषतिवृषाः पवित्रवत्येधिरोरूपत् राजा समुद्रम् नद्यो गोपि गाः देवामूर्मिम् दे साधते सिन्धूरुश्रितः ्याधरुणोः महो दिवः दिवो न सानस्तन चक्रधजस्तयस्य पृथिवीन्द्रस्य सख्यम् पावते विवेमः पुनारः कलशेषु सीदति ज्योतिर्यज्ञस्य भवते मधुप्रियम् पिता देवानाहम् जनिता विभूवसुः तिरत्नम् स्वदयोरभीच्यम् मलिन्द्रमोमयिन्साः अभिक्रन्दन् कलसम् बाज्यर्षजिवजिव श्वो विकक्षणः हरिर्मिद्रेषुभिः सिन्धुभिर्मृहाः अग्रे सिन्धो नाम् पवमानोर्णत्यग्रेरे वाचो अग्र्यो गोरो गच्छति अग्रे वाचस्य भजते महाधनम् स्वायुधः सो त्रिभिः स्पूयते मृगा अयम् मतवाञ्च गुणो यथा हितो स पमानभूर्मिरा अभक्त्रत्वारोधि अन्तराके सुधिया पावते सोमा इन्द्रते नापिम्बसा नो यतो विस्मृतमन्तरिक्षप्राभुवनेष्वीतः स्वर्जभ्यानो न भासाभ्यक्रमेत् प्रथमस्य वितरमाविवासति सो अस्य विषेम विधर्म यच्छति यो अस्य धाम प्रथमम् जानसे परञ्जतस्य परमेव्योः भङ्गतो विश्वा अभिसंज्ञादिसंज्ञताः रोगश्च निष्कृतम् सखा सख्यन्न प्रवीनादिसञ्जिरम् पर्ययुवयुवतिभिश्च वर्षदिशोपः कलशे सतयान्नापथाबोधियोः मन्त्रयुवो विपन्यवः पनश्च संवसनेष्व क्रमः सोमम् मनीषा अभ्य नोजतस्त्व भोभिधेन वेमशिश्रयोः आनः स्वोपसंज्ञोपव स्वपवमानो अश्रुधम् या नो दोहे न सृषन्वाजवन्मधुमत्सुरीरम् ृमतीनाम् पर्वते विदक्षणः सोमो अन्नप्रदरीतो दिवः काडासिन्धूनाम् कलसाङ्ग्रस्य आद्या विसन्मेषिभिः मनेषिभिः प्लवते भूर्यः कविर्नभिर्यतः परिकोषाङ्गचि क्रजत् न्द्रस्य वायो सख्याय कर्तव्ये अयम् पूरानपुषसो विरोहो चयम् सिन्ध भवतु लोककृते अयम् द्विःसप्तदु दुहान आशिरम् सोमो हृदे पर्वते चारु मत्सरः स्व सोम दिव्येषु धाम सुश्रान विन्द्रस्य जठरे परिक्रदण्डभिर्यतः सूर्यमारोहयो दिवि अद्रेभिः स्फुतः पावसे पवित्राविन्द्रस्य जठरेऽश्वाभिषन्न त्वम् विचक्षाभवो विचक्षण सोमा गोत्रमङ्गीरोऽभ्यो वृपोनप त्वाम् सोऽहमपवामानम् स्वाध्यो विप्राः सोऽहमदन्नवश्य वाह भरद्दिवस्परीन्दो विश्वाभिर्मतिभिः परिष्कृतम् पुनारम् परिवार पूर्मिना हरिम् न वन्दे अभिसप्तधे न वाह अपस्थे अध्यायवः कविर्मृतश्चयो